अथैकविंशः सर्गः तच्छ्रुत्वा वचनम् तस्य स्नेहपर्याकुलाक्षरम् समन्यः कौशिको वाक्यम् प्रत्युवाचमहीपतिम् पूर्वमर्थम् प्रतिश्रुत्य प्रतिज्ञाम् हातुमिच्छसि राघवाणामयुक्तोऽयम् कुलस्यास्य विपर्ययः यदीदम् ते क्षमम् राजन् यथागतम् मिमिथ्याप्रतिज्ञः काकुत्स्थसुखी भव सुहृद्रुतः तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः चचालवसुधा चा कत्स्ना देवानाम् च भयम् महत् त्रस्तरूपम् तु विज्ञाय जगत् सर्वम् महा धीरो वसिष्ठो वाक्यमब्रवीत् इक्ष्वापूणाम् कुले जातः साक्षाद्धर्म धृतिमान् स्वव्रत श्रीमान्न धर्मम् भातुमर्हसि त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः स्वधर्मम् प्रतिपद्यस्व नाधर्मम् वोढुमर्हसि प्रतिश्रुत्य करिष्येति उक्तम् वाक्यमकुर्वतः इष्टापूर्तवधो भूयात्तस्माद् रामम् विसर्जय कृतास्त्रमकृतास्त्रम् वा शक्ष्यन्ति राक्षसाः गुप्तम् कुशिकपुत्रेण ज्वलनेनामृतम् यथा एष विग्रहवान् धर्म एष वीर्यवताम्बरः एष विद्याधिको लोके तपसश्च परायणम् एषोऽस्त्रान्विधान् सचराचरे नैनमन्यः पुमान् केचन न देवादर्शयः केचिन्नाम राणचराक्षसाः गन्धर्वयक्षप्रवराः सखिन्धरमहोरगाः सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुता सुताः नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः जया च सुप्रभा चैव दक्षकन्येषु मध्यमे ते सूतेऽस्त्राणि शस्त्राणि शतम् परमभास्वरम् पञ्चाशतम् सुतान् लेभे जया लब्धवरावरान् वधाया सुरसैन्यानामप्रमेयानरूपिणः सुप्रभाजन यच्चापि पुत्रान् पञ्चाशतम् पुनः संहारान्नाम दुर्धर्षान् दुराक्रामान् बलीयसः तानि चास्त्राणि वेत्तेष यथावत्कुशिकात्मजः अपूर्वाणाम् च जनने शक्तो भूयश्च धर्मवित् तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः न किञ्चिदस्य विदितम् भूतम् भव्यम् च राघव विश्वामित्रो महायशाः न रामगमने राजन् संशयम् गन्तुमर्हसि तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः तव पुत्रहितार्थाय त्वामुपेत्याभियाचते इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद पार्थिवाग्र्यहा गमनमभिरुरोच कुशिकात्मजाय बुद्ध्या इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे एकविंशः